हरि श्री सीता रामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याखण्डे अष्टादश का स्वर्गः पितुश्चिन्ताया किं कारणम् इति कैकेय प्रति श्रीरामस्य योगः कैकय्या स्वप्रार्थितवर्योरि इति वृत्तं श्रावयित्वा श्रीरामस्य वनवासाय प्रेरणम् रामो विषण्णम् पितरं शुभे कैकेया कैकेय्यासहितं दीनम् मुखेन परिशुष्यतय सपितुः चरण पूर्वम् अभिवाद्य विनीत भेत् तदो वन्दे चरणौ कैकेय्यासु समाहितः रमित्युक्त्वा तु वचनम् बाष्पर्याकुलेक्षणः शशाके नृपति दीनो निक्षिप्तुम् नाभिभाषितुम् तत्पूर्वम् नरपते दृष्ट्वा रूपम् भयावहम् रामोऽपि भयमापन्न पदा स्पृष्ट्वैव पन्नगम् इन्द्रेयप्रहृष्टैस्तम् शोकसन्तापकर्षितम् निःश्वसन्तम् महाराजम् व्यथिताय कुलचेतसंर्मिमालीनमक्षोभ्यम् क्षुभ्यन्तम् विवसागरम् उपप्लुक्तम् इवधित्यम् उक्तान् नृतन्मुचिम् यथा अचिन्त्यकल्पम् नृपते तम् शोकमुपधारयन् बभूव संरब्धतरः समुद्र इव पर्वणि चिन्तयामासु चतुरो रामा पितृ हि से रतः मां प्रत्यभिनन्दति अन्यथा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति तस्य मां मद्य सम्प्रेक्ष्य किं माया स प्रवर्तते स दीन इव शोकार्तु विषन् न वदनद्युती कैकेयीम् अभिवाद्य रामो वचनम् अब्रवीत् कश्चिन् मया नापराधम् अज्ञानाद्ये मे कृपितै कृपितक्ष्व सम्य प्रसार्यप्रशन्न मना किं नु सदा मां प्रतिवर्तलहे विषण्ण वदनो दीन न हि भ प्रतिभाषते शारीरो मानसो वापि कच्चिदैनं न बाधते सन्तापो वाभितापो वा दुर्लभं हि सदा सुखम् कश्चिन्न किञ्चिद्भरते कुमारे प्रियदर्शने शत्रुग्नेवा वा महासत्त्वे मातॄणां वा ममाशुभम् अतोषयन् महाराजम् अकुर्वन् वा पितुर्वच मुहूर्तम् अपि नेच्छेयम् जीवितुम् कुपिते नृपे यतो मूलम् प्रादुर्भावम् ह्यात्मनः कथम् तस्मिन्न वर्तेत प्रत्यक्षे सति दैवते कच्चित्ते परुषम् किञ्चित् अभिमाना पिता मम उक्तो भवत्या रोषेण येनास्य लुलितम् मनः एतदास्य मे देवि तत्त्वेन परिपृच्छतः विकारो मनुजाधिपे एवम् उक्ता सुकैकेयी राघवेण महात्मनः वाचेदम् सुनिर्लज्ज दृष्टमात्मा हितम् वचः न राजा कुपितो राम व्यसनं नास्य किञ्चन किञ्चिन्मनोगतम् तस्य तद्भयान्नानुभाषते तस प्रियम् त्वाम् अप्रियम् वक्तुम् वाणी नास्य प्रवर्तते तदवश्यं त्वया कार्यम् यदनेनाश्रुतं मम एष मह्यं पुरामाम् दत्त्वा पुराम् अभिपूज्य च स पश्चात् तप्यते राजा यथान्य प्राकृतस्तथा अतिसृज्य ददानीति वरं मम विशाम्पतिः स्वनिरर्थं गतजले सेतुम् बन्धितुमिच्छति धर्ममूलम् इदम् राम विदितं च सुतामपि तत् सत्यं न कुपित सत्कृते यथा यदि तद्वक्ष्यते राजा शुभं वा यदि वा शुभं करिष्यसि ततः आख्यास्यामि पुनः यदि तु अभिहितं राज्ञा त्वयि तन्न विपत्यते अभिधास्यामि न ह्ये च त्वयि वक्ष्यति एतत्तु कैकय्यासमुदाहृतम् कै उवाच व्यथितो राम तां देवीं नृपसन्निधौ अहोधिं नार्हसे देवि वक्तुं मां विदृशम्बच अहं हि वचनाद्राभ्य पतेयम् अपि पावके भक्ष्येयं विषं तीक्ष्णम् पतेयम् अपि चार्णवे नियुक्तो गुरुणा पित्रा नृपेण च हितेन च तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम् करिष्ये प्रतिजानेत् भाषते तम्भाजव समायुक्तम् अनार्या सत्यवादिनम् उवाच रामम् कैकेयी वचनम् भृषदारुणम् पुरा देवासुरे युद्धे पित्राते ते मम राघव रक्षितेन वरोदत्तौ शल्येन महारणे तत्र मे याचितो राजा भरतस्याभिषेचनं गमनं दंडकारण्ये तव चाद्यैव राघव यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि आत्मानं च नर श्रेष्ठ मम वाक्यम् इदं शृणु सन्धिदेशे पितुः यथा नेन प्रतिश्रुतम् तयारण्यम् प्रवेष्टव्यम् नव, नव वर्षाणि पञ्चत भर्त चाभिषिच्येत यदेतदभिषेचनम् तदर्थे वीतम् राज्ञ तेन सर्वेण राघव सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः अभिषेकम् इदं त्यक्त्वा जटाचीरधरो भव भरतः कोसलपते प्रशासु वसुधामिमां नानारमाकीर्णां सर्वाजी रथ सङ्गुलाम् एतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्लुतः शोकैः संक्लिष्ट वदन् न शक्नोति निरीक्षितुम् एतत् कुरु नरेन्द्रस्य वचनं रघुनन्दन सत्येन महता राम तार्येश्व नरेश्वरम् इति तस्यां पुरुषं वदन्त्यां न चैव रामः प्रविवेशोकम् प्रविव्यथे चापि महानुभवो राजा पुत्र व्यसनाभितप्त इत्याख्ये श्रीमद् रामाय वाल्मीकि आदिकाव्ये अयोध्याकाण्डे अष्टादश श्री सीतारामचन्द्रर्वणमस्तु